श्रीमन् श्रीमन्महाभारतम् आदिपर्वणि सम्भवपर्वणि आदित्यादिवंशकथने पञ्चषष्टितमो अध्यायः वैशम्पायन उवाच अथ नारायणेनेन्द्रश्चकारसहसंविदम् अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः निर्जगाम पुनस्तस्मात् क्षयान्नारायणस्य तेमरारिविनाशाय सर्वलोकहिताय च अवतेरुः क्रमेणैव महीं ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च जज्ञिरेराजशार्दूलयथा कामं दिवौकसः दानवान् राक्षसांश्चैव गन्धर्वान् पन्नगांस्तथा पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा नतान् बलस्थान् बाल्येऽपि जग्नुर्भरतसत्तमा जनमे जय उवाच देवदानवसङ्घानां गन्धर्वाप्सरसाम् तथा मानवानाञ्च सर्वेषां तथा वैयक्षरक्षसाम् श्रोतुमिच्छामि तत्त्वेन सम्भवम् कृत्स्नमादितः प्राणिनां चैव सर्वेषाम् सम्भवम् वक्तुमर्हसि वैशम्पायन उवाच हन्त ते कथयिष्यामि नमस्कृत्य स्वयम्भुवे सुरादीनामहं सम्यग् लोकानां प्रभवाप्यहम्